श्रीहरये नमः अथ चतुर्विंशोऽध्यायः मैत्रेय उवाच निर्वेदभातिनीमेवं मनोर्दुहितरं मुनिः दयाळुशालिनीमाखशुक्ला देव्याहृतं स्मरन् ऋषिरुवाच मागितो राजपुत्री तम् आत्मानं प्रत्यनिन्दिते भगवांस्ते क्षरो गर्भम् अतु रासम्प्रपत्स्यते धृतव्रदासि भत्रं ते धमेन नियमेन च तभो द्रविणधानैश्च श्रद्धया सेश्वरं भज सत्त्वयाराधितः शुक्लो वितन्वन्मामकं यशः चेतोत्हृदय ग्रन्थिमौदर्यो ब्रह्मभावनः मैत्रेयुवाच देवहूत्यपि सन्देशं कौरवेण प्रजापतेः सम्यक् श्रद्धाय पुरुषं कोटस्थम् तस्यां बहूतिते काले भगवान् मधुसूदनः कार्दमं वीर्यमापन्तो जज्ञेऽग्निरिवधारुणीम् अवादयन्स्तदा व्योम्नेवादित्राणि घनाघनाः गायन्ति तं स्म नृत्यन्त्यप्रसससो मुधा पेतुस्सु मनसो दिव्याकेसरै अभवर्जिताः प्रचेदुष्य दिशः सरस्वत्या परिश्रितं स्वयम्भू साकं ऋषिभिर्मरीचादिभिः अभ्ययात् भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् तत्त्वसंज्ञानविज्ञप्यै जातं विद्वा जनः सभाजयन् विशुद्धेन चेतसा तक्षिकीर्षितम् प्रकृष्यमाणैरसुभिक्कर्दमं चेतम् अभ्यधाद ब्रह्मो त्वया मेपचितित्सात कल्पिता निर्व्यलीकदः यन्मे सजगृहे वाक्यं भवान् मानदमानयन् एतावत्येव शुश्रूषा कार्यापितरिपुत्रैः बाडमत्यनुमन्येत गौरवेण गुरोर्वचः इमा दुहितरः सर्ग प्रभावे प्रभाव स्वभ्रम हईने अतस्त्वं ऋषिमुख्येभ्यो यथा शीलं यथा रुचिम् आत्मजा परिदेह्यत्य विस्तृणीही यशोभुवि वेदाहमाद्यं पुरुषम् अवतीर्णं स्वमाययां भूतानां सेवधिं देहं बिभ्राणं कपिलं मुने ज्ञानविज्ञानयोगेन कर्मणामुद्धरञ्झटाः हिरण्यकेशपद्माक्षपद्ममुत्राभधाम्बुजः एष मानविते गर्भं प्रविष्टकैडभार्धनः अविद्या संशयग्रन्थिं चित्वा गां विचरिष्यति अयं सिद्धगणादिशक् साङ्ख्याचार्यैः सुसम्मतः लोके कपिल इत्याख्यां गन्धा ते कीर्तिवर्धनः मैत्रेय उवाच तावा स्वास्य जगस्तृष्टा कुमारैः त्रिधामपरमं ययौ गते सधतृतौ क्षत्तकर्तमस्तेन चोदितः यदोदितं स्वदुहित्रो प्राधात् विश्वसृजां गतः मरीचये कलां प्राधादनसूयमतात्रये श्रद्धामङ्किरसे यच्छत् पुलस्त्याय विर्भुवम् पुलहाय गतिं युक्तां क्रतवे चक्रियां सतिम् ख्यातिं च भृगवे यच्च वसिष्ठायाप्यरुन्धतीम् अथर्वणे धतात् शान्तिं यया यज्ञो वितन्यते विप्रर्षभान् कृतोद्वाहान् सधारान् समलालयन् ततस्तरुषयक्षक्तक्रुधार निमन्त्रयतं प्रादिष्ठन् नन्दिमापन्ना स्वं स्वमाश्रममण्डलं सचावतीर्णं त्रियुगमाज्ञाय कालेन भूयसानूनम् प्रसीदन्तीह देवताः बहु जन्म विपक्वेन सम्यक् योगसमाधिना द्रष्टुम् यतन्ते यतयक् शून्यागारेषु यद्वतम् स एव गृहेषु जातो ग्राम्याणाम् यस्वानान् पक्षभूषणः स्वीयम् वाक्यम् मृतं कर्तुम् अवतीर्णोऽसि मे गृहे शिकीर्षु भगवान् भक्तानां मानवर्धनः तान्येव तेऽपिरूपाणि रूपाणि भगवन्स्तव यानि यानि च रोचन्ते स्तत्व बुभुत्सयाद्धा सदापि वधार्हण पादपीठम् ऐश्वर्यवैराग्ययशोबभूत् वीर्यश्रिया पूर्तमहम् प्रपद्ये परं पुरुषं महांतं, कालं कविं त्रिव्रतं लोकपालम् आत्मानुभूद्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रभद्ये आस्माभि प्रश्चेद्यपतिं प्रजानां त्वयावतीर्णार्ण उदात्तकामः परिव्रजत्पथवीमास्तितोऽहं चरिष्ये त्वां हृदि योजन् विशोकः श्रीभगवानुवाच मया प्रोक्तं किलोकस्य प्रमाणं सत्यलौकिके अता जनि तुभ्यं यदवोचमृतं मुने एतन्मे जन्म लोकेऽस्मिन् मुमोक्षूणां धुरासयात् प्रसङ्ख्यानाय सम्मतायात्मदर्शने एष आत्मभतो व्यक्तो नष्टकालेन भूयसा तं प्रवर्तयितुं देहमिमं विद्धि मया भृतं गच्छ मया पृष्टो मयि जित्वा सुदुर्जयम् रत्यम् अमृतत्वाय माम् भज मामात्मानं स्वयम् ज्योते सर्वभूतगुहाशयम् आत्मन्येवात्मना वेक्ष्य विशोको भयम् ऋच्छसे मात्र आध्यात्मिकीम् विद्याम् सवनीम् सर्वकर्मणाम् वितरिष्येयया चासौ भयं चातितरिष्यति मैत्रेय एवं समुदितस्तेन कपिलेन प्रजापतिः दक्षिणीकृत्य तं प्रीतो वनमेव जगामः व्रतं स आस्तितो मौनमात्मैकसरणो मुनिः निस्सङ्गोऽव्यचरक्षोणि मनग्नि अनिकेतनः मनो ब्रह्मणि युजानो यत् सदसतः परं गुणावभासे विगुण एकभक्त्यानुभाविते निरहङ्कृतिर्निर्ममश्च निर्द्वन्त्वसमधृक् स्वधृक् प्रत्यक्प्रशान्त दीर्धीर प्रशान्तोर्मिरिबोधतिः वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः आत्मानं सर्वभूतेषु भगवन्तम् अवस्थितम् अपश्यत् सर्वभूतानि बहत्वत्यभिजात्मने इच्छाद्वेषविहीनेन सर्वत्र समचेतसा भगवद्भक्तियोक्तेन प्राप्ता भगवती गतिः इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे कापिलेये चतुर्विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविन्द गोविन्द सद्गुरुनाथमगराजिके जय